सम्भाषणसन्देशः मार्च् ट्वेण्टि एय्टीन् मासस्य मासपत्रिका बालमोदिनी दुर्भावः अनुचितः कथाकारः मुनिः श्रवणोदयविजयः एकदा कश्चन युवकः समुद्रतीरे वृक्षस्य अधः उपविश्य पार्श्वे स्थितं पेयं स्तोकं स्तोकम् अपिपत् तस्य मूर्तिहस्तं प्रसारयन्ती एका महिला तत्पार्श्वे आसीत् कश्चन भद्रपुरुषः एतद् दृष्ट्वा चिन्तितवान् अयं मद्यपः अस्ति तस्य समीपे या सा प्रेयसी गणिकास्त्री वा स्यात् अवकाशसमये अत्र आगत्य पवित्रस्थानं दूषयति अयम् ईदृशाय कार्याय अन्यानि स्थानानि किं इति एवं तस्य चित्ते तर युवक विषय दुर्भाव उत्पन्न तवता सम् रक्षत रक्षत शब्द शुक्र त्र प्रवणे जात छिद्रे कार्य मज्जन संभावना आपतिता आसी नौकास्थना महां चित्कारुतु झटि उथिता स युवक धाव्वा समीपस्थ लघुनौका आनीय समुद्रम प्रव परित्राणकार्यं च आरब्धम् एकैकशः हस्तावलम्बनम् अर्पयित्वा सः सर्वान् तीरम् आनितवान् भद्रपुरुषः अपि यथाशक्ति साहाय्यम् अकरोत् युवकस्य व्यवहारं दृष्टवतः भद्रपुरुषस्य चिन्तनं परिवृत्तम् आत्मनः क्लेशं प्राणापायं चापि अविगणय्य अयं जनः बहून् रक्षितवान् इति चिन्तयन् सः युवकाय साधुवादम् अर्पितवान् तदा युवकस्य पार्श्वे स्थिता महिला अवदत् अयमस्ति अस्वस्थः वायुपरिवर्तनाय आगतौ आवाम अत्रैव समीपे निवसावः अध्यत्वे अस्य स्वास्थ्ये विशेषप्रगतिः दृश्यते अयं च तीरे उपवेशनं आधिक्येन इच्छति समये समये अनेन औषधं सेवनीयम् अतः अहम् औषधम् अत्रैव आनीय ददामि इति एषा इति तं युवकम् अपृच्छत् भद्रपुरुषः तदा सः युवकः अवदत् एषा मम माता एषा एव मां परोपकारपाठान् पाठितवती सा वदति अन्येषां कष्टकाले शक्तिम् अतिक्रम्य प्रवर्तनीयमिति भद्रपुरुषः स्वस्य चिन्तनविषये लज्जाम् अनुभवन् अहो मूर्खता मम मया वृथा एतस्मिन् युवके दुर्भावः प्रदर्शितः इतःपरं मया अज्ञात्वा अन्यस्य विषये दुर्भावः न वहनीयः पूर्वाग्रहः त्यक्तव्यः इति निश्चित्य ततः निर्गतवान् कथा समाप्ता